पुम्नाम्नो नरकात् पुत्रस्त्रायते पितरम् श्रुतिः तस्मादपत्यसन्ताने यतस्व ब्रह्म सत्तम वैशम्पायनुवाचा तच्छ्रुत्वा मन्दपालस्तु वचस्तेषां दिपौकसाम् क्वनु शीघ्रमपत्यम् स्याद्बहुलं चेत्यचिन्तयत् सचिन्तयन्नभ्यगच्छत् सुबहुप्रसवान्थगान् शार्ङ्गिकां शार्घिको जरितां समुपेयिवान् तस्याम् पुत्रा न जनयच्चतुरो ब्रह्मवादिनः तन पास्य स प्रति बालान् सतानण्डगतान् सह मात्रा तस्मिन् गते महाभागे लपिताम् प्रति भारता अपत्यस्नेहसंयुक्ता जरिता बह्वचिन्तयत् तेन केता न सन्त्याज्यान् ऋषी दण्डगतान् वने न जहौ जरिता खाण्डवे सुतान् बभारचैतान् सञ्जातान् स्ववृत्त्या स्नेह विप्लवा ततोग्निम् तं सङ्कल्पं विदित्वाग्नेर्ज्ञात्वा पुत्रांश्च बालकान् सोऽभितुष्टावविप्रर्षेर्ब्राह्मणो जातवेदसम् पुत्रान् प्रतिवदन् लोकपालं महौजसम् मन्दपालवाच त्वमग्ने मुखं त्वमसि हव्यवाट त्वमन्तः सर्वभूतानां त्वामष्टधा कल्पयित्वा कल्पयन् त्वया विश्वमिदम् सृष्टं वदन्ति परमर्षयः त्वदृते हि जगत्कृत्स्नम् सद्यो नश्येधुताशन लुभ्यम् कृत्वा नमो विप्राः स्वकर्म विजिताम्